अथ द्वात्रिंशः सर्गः सा सीता तच्छिरो दृष्ट्वा तच्च कार्मुकमुत्तमम् सुग्रीवप्रतिसंसर्गमाख्यातम् नयने मुखवर्णम् च भर्तुस्तत्सदृशम् मुखम् केषान् केशान्तदेशम् केशान, च तम् चूडामणिम् शुभम् एतैः सर्वैरभिज्ञानैरभिज्ञाय विजगर्हेऽत्र कैकेयीम् क्रोशन्ती कुररी यथा स कलहशीलया आर्येण किम् नु कैकेय्याः कृतम् रामेण जगाम जगतीम् बाला छिन्ना तु कदली यथा सा समाश्वस्य परिलभ्याथ चेतनां। तच्छिरः समुपास्थाय विललापायते क्षणा हा हतास्मि महाबाहो वीरव्रतमनुव्रता इमान्ते पश्चिमावस्थाम् गतास्मि विधवाकृता। कृता प्रथमम् मरणम् नार्या भर्तुर्वैगुण्यमुच्यते सुवृत्तः साधुवृत्तायाः संवृत्तस्त्वम् ममाग्रतः महद्दुःखम् प्रपन्नायामग्नायाः शोकसागरे यो हि मामुद्यतस्त्रातुम् सोऽपि त्वम् विनिपातितः सा श्वश्रूर्मम कौसल्या त्वया पुत्रेण राघव वत्सेनेव यथाधेनुर्विवत्सा वत्सला कृता उद्दिष्टम् दीर्घमायुस्ते दैवज्ञैरपि राघव अनृतम् वचनम् तेषामल्पायुरसि राघव अथवा नश्यति प्रज्ञा प्राज्ञस्यापि सतस्तव अचत्केनम् तथा कालो भूतानाम् प्रभवो ह्ययम् मृत्युमापन्नः कस्मात् त्वम् नयशास्त्रवित् व्यसनानामुपायज्ञः कुशलो ह्यसि तथा त्वम् सम्परिष्वज्य सया नृशंसया कालरात्र्याममाच्छिद्य हृतः कमललोचना इहशेशे शेषे महाबाहो माम् विहाय तपस्विनी प्रियामिव यथा नारीम् पृथिवीम् पुरुषऋषभा अर्चितम् सततम् यत्नात् गन्धमाल्यैर्मया तव ते मत्प्रियम् वीरधनुः काञ्चन पित्रा दशरथेन त्वम् श्वशुरेण ममानघा सर्वैश्च पितृभिः सार्धम् नूनम् स्वर्गे समागतः दिवि नक्षत्रभूतम् च तथा पुण्यम् राजर्षिवंशम् त्वमात्मनः समुपेक्षसे किम्वान्न प्रेक्षसे राजम् किम् वा िणी संश्रुत गृहता पाणी चरष्यामी यमर तनाम काकुत्स्थनय दुखिता कस्मा गतिमता अस्मोकादोक त्यक्त मुखिता कल्याणैरुचिरङ्गात्रम् परिष्वक्तम् मयैव तु क्रव्यादैस्तच्छरीरम् ते नूनम् व्यपरिकृष्यते अग्निष्टोमादिभिर्यज्ञैरिष्टमानाप्तदक्षिणैः अग्निहोत्रेण संस्कारम् केन त्वम् न तु लप्स्यसे परिप्रेक्ष्यति कौसल्या लक्ष्मणम् शोकलालसा स तस्याः परिपृच्छन्त्या मित्रबलस्यते तव चाख्यास्यते नूनम् निशायाम् राक्षसैर्वधम् सा त्वाम् सुप्तम् हतम् ज्ञात्वा माम् च रक्षो गृहम् गताम् हृदयेनावदीर्णेन न भविष्यति राघव मम हेतोरनार्याय अनघः पार्थिवात्मजः गर मुत्ती वीयोपदेह अहम दाशरथे नोढ़ा मोहावनी आर्यपुत्र भार् मृत्युरजयता नून मनिया मैया जाति वारित दानुतम याहमद शोचा भार् सर्वातिथेह साधुघातय माम् क्षिप्रम् रामस्योपरि रावणा समानयपतिम् पत्न्या कुरु कल्याणमुत्तमम् शिरसा मे शिरश्चास्य कायम् कायेन योजया रावणानुगमिष्यामि गतिम् भर्तुर्महात्मनः इतीव दुःखसन्तप्ता विललापायते ददर्शजनकात्मजा एवम् लालप्यमानायाम् सीतायाम् तत्र राक्षसः अभिचक्रामभर्तारमनीकस्थः कृताञ्जलिः विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च न्यवेदयदनुप्राप्तम् प्रहस्तम् वाहिनीपतिम् अमात्यैः सहितः सर्वैः प्रहस्तस्त्वामुपस्थितः तेन दर्शनकामेन अहम् प्रस्थापितः प्रभो नूनमस्ति महाराजराजभावात् क्षमान्विता किञ्चिदात्यैकम् कार्यम् तेषाम् त्वम् दर्शनम् कुरु एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम् अशोकवनिकाम् त्यक्त्वा मन्त्रिणाम् दर्शनम् ययौ स तु सर्वम् समर्थ्यैव मन्त्रिभिः कृत्यमात्मनः सभाम् प्रविश्य विदधे विदित्वा रामविक्रमम् अन्तर्धानम् तु तच्छीर्षम् तच्च कार्मुकमुत्तमम् जगाम रावणस्यैव निर्याणसमनन्तरम् राक्षसेन्द्रस्तु तैः सार्धम् मन्त्रिभिर्भीम रामकार्यविनिश्चयम् अविदूरस्थितान् सर्वान् बलाध्यक्षान् हितैषिणः अब्रवीत्कालसदृशम् रावणो राक्षसाधिपः शीघ्रम् भेरीनि नादेन स्फुटम् कोणाहतेन नमे समानयध्वम् सैन्यानि वक्तव्यं च ततस्तथेति प्रतिगृह्य तद्वचस्तदैव दूताः सहसा महद्बलम् समानयश्चैव समागतम् च न्यवेदयम् वर्तरि इत्यार्षे श्रीमद् रामायणे वाल्मीकीये युद्धकाण्डे द्वात्रिंशः